पावकायासुजातकश्च भो यास्मिन्द्रः अग्नेय्यागर्भन्तस्तानावश्यग्रस्यो न भवन्तोराजमध्ये सत्याजले अवपश्चनाम् अश्रियोगाः पावकास्तानावश्यग्रस्यो न भवन्तो कृण्वन्ति भक्षय्या अन्तरिक्षेपबुधा भवन्ति याः पृथिवेम् पयसोन्दन्ति शुक्रास्तानावश्यज्ञस्यो ना भवन्तोक्षुषा पश्यदापशिवया तनुवोपस्पृशतत्पजम् मे सर्वगम् अग्ने गौरक्षुषतोनवोजो निधत्ता यततः सम्प्रयते रहा मनदताहते तस्पादा नद्यो नाम स्थता वो नामा निषिन्धवः यत्र तदा आप्नो मो यदेस्तस्पादापो अनुस्थः अपकामग्रस्यन्तमाना अवीवरत मोहिकम् इन्द्रो वशक्तिभिर्देवेस्तस्पाद्वार्नाम मोहिकम् एको देवोऽप्यतिष्ठच्छन्दमानायथा वशम् पुरानिर्महे तस्मानुगमुच्यते आपो भद्राकृतमितापासरग्नेपयतिताः गमाना प्राणेन सह वर्चसा गण् आयत्वशाम् मितवासुरोघोषो गच्छति वाङ्नासाम् अन्येभे जाना अमृतस्कतरि हिरण्यवर्णा अधर्मः आपोहिष्ठामस्तानवोर्जे तथातना महेरणाय चक्षसेहशिवतमोरशस्तस्य भाले चेहनः उषतेरिव मातरः तस्मा अरङ्गमामबोयस्य क्षया यदि आपो जनेछा जनः यजश्रयस्वान्तरक्षयगतस्व्यासम्भव ब्रह्मवर्तसपर्तसा गत्वा गृह्णाद्य सूयते भावेव लोकामभिजेरियश्च राजसूयेन जानश्चयष्टापभवन्त्यापो वाग्नेभ्रातं यायदपोऽस्तादुपथा जभ्रातं या भवत्यात्मना स्यभ्यादुर्व भवत्यं वा आपस्तस्मादभ्यवदान्तमभिषिजन्ति नार्पिमार्च्छति धर्वमायुरे दयश्रेता उपधीयन्ते यौचैना एवं वेदान्नं वा आपः पशव आपोऽन्नं पशवान्नादः पशवाण् भवति स्मान्नव वरुन्धे पात्राणि भवन्ति पात्रे वा अन्नमद्य देशयोन्येवान्नवरुन्धा द्वादशात् पुरुषादन्नमद्य स्वपात् प्राद्य उपधीयन्ते यौजैना एवं वेद कुम्भाश्च कुम्भेश्च मिथुनानि भवन्ति मिथुनस्य प्रजा ये प्रजगावधुधर्मिथुनैर्ज्याय देयस्यैता उपधीयन् देयौ जैना एवं ुचार्पयति यदपवदधानिवास्य प्रजायत्रेतानुपधीयन्तेवाम्बा गेतानि हृदया नियदेता आपो यदेता अपवपदधानि दिव्याभिलेवैना सगं वर्षकः पर्यन्या भवति य वा गेता सा मायुधनप्तिं वेदाय न भवति कल्पते स्मा अनुजेतमुपदधात्येजद्वायत नेधागत्य कल्पते स्मै द्वन्द्व्यापदधा मध्ये धृत्यापदधादि साक्षादेवा स्वान्नमवरुन्धे मध्यद उपदधादि मध्यदेव स्वान्नं दधा द्यदेवा बृहस्पत्यो भवतिर्ब्रह्म वैदेवानाम् बृहस्पतिर्बृमणैवास्पाण्णमन्धे ब्रह्मवर्त्रसमधिर्ब्रह्मवर्त्रसायत्रे यस्पे ब्रह्मवर्तते भवति यस्पे चौभीयते यौ जैनमेवम् वेदा भूतेष्टका उपदधात्र वै मृत्युर्जायते यत्र यत्रैव मृत्युर्जायते तद एवै नमवे तस्मादग्नियच्छमाय सर्वे यस्य मृत्यभो वेष्टास्तस्मादग्नियन्नाभिज सर्वे तत्यगे नमभिस्तृते सूयदेवाघे लृते देव सदा वेदानि हवेगुण् भवन्त्येतावन्तो राजसोयं देवस्य पादमिदः प्रसवत्याभिरभिजत्यन्नस्यान्नस्याभिजञ्जत्यन्नस्यान्नस्यावलब्ध्ये पुरस्तात् प्रत्यन्तमभिजने पुरस्ताब्धिप्रतेजेन ण्वस्त्रालयति मुखतगेवास्मान्नाद्यन्द्रग्स्वादाम्राज्येनाभिरुञ्जामेत्याहैग्ने समस्ते देवेन अभिरुञ्जति बृहस्पदे स्वादाम्राज्येनाभिरुञ्जामेत्या ब्रह्म मे देवानां बृहस्पदे ब्रह्म देवेन अभिरुञ्जतेन्द्रस्य त्वादां राज्येनाभिरुञ्जामि त्याहेन्द्रियमेवास्मिन्नुपरिष्टाद्यथा राजसो यश्च लोपम् च एवम् विद्वानग्निञ्च न तुभावेव लोकाभिजेलयश्च राजसूयेन जानस्य यश्चाग्निन्द्रस्य सुखपानस्य दशहेन्द्रियम् वेद्यम् परापदत्तद्देवासौः प्रामन्यासमभरान् सूयदेवाञ्चिदृते ्राह्मण्या चेन्द्रियमेव पेद्यकम् सजोरब्धो यामभिस्तजोरुषारुणेभिस्तजो सूर्यगेदशेन सजोजा सगिं स्वाभिस्तजोरज्ञेष्वा नरगिलाभिर्भृतेण स्वाहा संवत्सरो वा अब्धो वा सा अजावा वुषाणे सूर्यगेदशगिने अश्विना संवत्सरोज्ञयेष्वा नरः पशवयिना पशवा भृतकम् संवत्सरम् पशवा न प्रजायन्ते संवत्सरेणैवास्मै स्तं वेजहो अस्यामृजलो नादो भवति यस्यैव प्रीणाच्यो चक्षु देवाग्नेः पुरस्तात्प्रजिधाच्चलन्धो भवति एवं वेदा भो वाय प्रजापतिः पुष्करवर्णे प्रतिष्ठान् नाविन्देतदपान् तस्मिन्नवचिनुगमभवत्र गोमेद प्रत्युपादधात् तच्छिदवत्सा प्राजेरिज्ञान् दक्षिणत उपादधात् स दक्षिणपक्ष भवत् सा दक्षिणादिज्ञाम् पश्चादुपादधात् तवत्सा प्रजेजेरिज्ञामुत्तरत उपादधात् स उत्तर पक्षो भवत् ष्टादपादधामभवत्सोष्टकस्तपेष्टान् नन्दभिषर्कराञ्च न प्रत्ययतिष्ठत्यभिजतो जयत्याग्नेयो ्राह्मणस्तस्माद् ब्राह्मणाय सर्वा स्वामेव अग्निशमन्मेका स्वामेव तद्व्योनिम् प्रविशन्ति संवत्सर मुख्यम् हृत्वा द्वितीये संवत्सराष्टाकपालम् गर्वभेदैन्द्रमेकादशकपालम् वैश्वदेवलम् भारहस्तत्यञ्चलम् वै ैष्ठमन्त्रकपालं तृतीयसंवत्सरेष्टाकपाल भवत्यष्टाक्षरा गायत्र्यायत्रं प्रादस्सवनं प्रादस्सवनमेव तेनदाधार गायत्रे छन्दो यदेकादशकपाल भवत्येकादशाक्षरात् द्रेष्ठभं माध्यन्दिनगं सवनं माध्यन्दिनमेव सवनं तेन छन्दो यद्वादशकपाल ेवैश्वदेवं जागतं तृतीयसवलं तृतीयसवलमेव तेन दाधार जगजेच्छन्दो विद्वात्यश्चतुर्भवति ब्रह्म वै देवा ब्रह्मैव तेन दाधारयद्वये कवस्ति गालो भवति यज्ञमेवर्यज्ञमेव तेन दाधारयेन वत्सरेभिर्ति यत्संवत्सर कव्यस्पृणाति यत् द्वितीये संवत्सरे किञ्चिदृतेन स्पृणोति यत् तृतीये संवत्सरे यज केवमेव तेन न कव्यस्पृणात् वेदम् वे क्षे पाकम् औषुज वेदः व्यश्वायस्प्रतस्य प्रजागामाेदे सहस्रकम् सहस्रम् पुत्रा न वीन्द्रन् दे प्रजगामसुभ्यस्ताम् मात्रामाप्नो दिगान्ते कक्षतिग एवम् विद्वानेतृ प्रजापतिरग्निमचदक्षुरभो त्वादिष्ठत्तम् देवाभिभ्यतोऽनोपायन्ते छन्दोभिरात् बाणम् चादयित्वोपायन्तच्छन्दसान्दस्तम् ब्रह्म वै छन्दाकुञ्जब्रह्मण एोपञ्च कृष्णाजलङ्कानः उपमुञ्चते छन्दोभिदेवात् बाणम् चादयित्वाग्निमुपजलध्यात्मलोहिकम् सागे देव निधर्वागे धीयते यदग्निरण्ये क्तं विन्दं दिन वा प्रति प्रजानात् क्रामत्यात्मानमेवाधिकान् कुरुते गोक्त्या असौखल् वार्णा र्वाग्निरेव तद्यङ्गा सर्वस्येष्टकास्ताङ्गेतकं हवादृशिरभ्येन्द्रे चिष्टकाभिरग्निकल्लोके भवधि एवं वेद यज्ञस्य आत्मा वैस्मानम् यच्चिदेवैश्वा नरञ्जुहोरि शरीरमेव सङ्गस्कृत्याभ्यारोहति शरीरं वा एतद्देवानस्सर्गस्कृते यच्चिदेवैश्वा नरञ्जहोरिशरीरमेव सर्गस्कृत्यात्मनाभ्यारोहय तस्मात् तस्य नापद्यन्ति जीवन्मेव देवानव्यजवैश्वा न यच्चापुरेणमवजधातेयं वा अग्निरुपैश्वा नरस्तस्यैरेण ेव वैवेश्वादरम् च न त यदावान्मनेः प्रियातनोर्यद्वैवेष्मानरः प्रियामेवास्य तनुमवरुन्धे अग्नेरु वेक्षया देवा विराजमाप्नवञ्जि स्वरात्रेक्षिणस्या विरान् विराजमाप्नोति षड्डा त्रयक्षिदस्या षड्वामःत्सरः संवत्सरो विरान् विराजमाप्नोदि दशरात्रेण स्यात्य साक्षराभिरान् विराजमाप्नोति द्वादशरात् त्रेणस्या द्वारा संवत्सरः संवत्सरो विराजमाप्नोति त्रयोदश रात्रे त्रयोदशमासात् विराजमाप्नोति पञ्चदश पञ्चतमः संवत्सरः संवत्सरो विराट् विराजमाप्नो चतुर्विंशजोरात्रेक्षुरस्यांशरः संवत्सरो विराट् विराजमाप्नो यंशजरात्रे क्षिरस्याट् विराजमाप्नो यान्दे क्षिरस्याद्योत्सरः संवत्सर ृथमे मालयन् गायत्रे यन्दोष्टौ रुद्रास्ते क्षमालयं द्रष्ट्वा चन्दो भार्यास्ते ेन व्यावृतमगच्छन् श्रेष्ठन् देवाना तस्माद्वादश मासा भृत्वाग्नि द्वादशमासा संवत्सरः संवत्सरोस्तस्याहो रात्राणेष्टगाष्टगमेन च नृते स व्यावृतमेव गच्छति श्रेष्ठ यवायश्च लोकाय जीवते यदग्न्मारोहेत् सुवर्गालोकादिमानो हि यदपृथिवेमाक्रमिणं प्राणमामाहासेदन्तरिक्षमाक्रमिणं प्रजामामासेद्यमाक्रमिषुसुपदगन्मेत्याहैषवाग्नेरन्वारोहस्तेन सुवर अन्वारोहति सुवर्गस्य लोकस्य समष्टे यत्पक्षसंवे यज्ञकृतमुपेपापि यस्य स्यात्मनः प्रजा स्याद् व्यभि संमितामिना विद्यायागं समेव यज्ञकृतमुपेजिगास्यात्मनः पापीयसे प्रजा भवति साहस्रं जिन्वेद प्रथमं जिन्बाणसहस्रसंमितो वा इमेवञ्जिन्वेद द्वितीयञ्जिन् बाणान्पि सा ्रं वा अन्तरिक्षमन्तरिक्षमेवाभिजयति तृषा हस्रं जिन् वेद तेऽजिन् वा नृषाहस्रो वा असौ वेदप्रथमं जिन् वा नो गायत्र्यैव मन्लोकमव्यालो हरिनाभिदग्नञ्जिन् वेदते यञ्जिन् वा नृष्टुभैवान्तरिक्षमव्यारो ित्वा रामापेया द्वयो नेतो धास्यामे काञ्चनोपेयाद्रेतोन्निदत्ते यदा खल्वायश्चन्द्यन्नापेया वदेव यजमानस्तरे स्कन्दायत्रे निवावरे दां देपिता पुत्रः पौत्र यद्वैरे तस्थिताश्चिद्वाग् वा इयं तस्मात् पश्यन्ति मां पश्यन्ति वाचं वदन् देवन्तरिक्षं द्वितीया प्राणो वान्तरिक्षन्तस्मान्नान्तरि पश्यन्ति न प्राणमसौ तृतीया च क्षर्वासौ तस्मात् पश्यन्त्यमो पश्यन्तिष्टो यज्ञो भृजुषेभ्यस्तस्य च इष्टस्य वेदस्य द्रविने शस्त्रे एव च्छिद्रापदािद्रानुवाविश्वहस्पतिवृक्षापदानि नैव एषाय चियते यतस्तादये समा प्रत्ये सादयति गर्भाया सो समेव गर्भो वा एष युक्षो यो निश्चिक्यम् यच्छिख्या दुःखाद्योगर्भन्य्या षडुद्यामकं पुरुषात्पादशिरश्च चत्वार्यङ्गान्यात्मन्येवनं विहत्य प्रजापदुर्वायेणग्निस्तस्योखा च लोखलञ्चस्तनौताभस्य प्रजा उपजवन्ते दुःखाञ्चो लोखलञ्च पदधादिताभ्यापमानो पुष्टुल्लोके सरोवायेनस्तश्च त्रयधा विहिता जापत्या वैष्णवे वैश्वकर्मणे नहो राण्येवास्य प्राजापत्याय दुःखं विभक्ति प्राजापत्या हेमदुपसत्ये यत्समिध आ तथा न वैष्णवा वै मनस्पतया वैष्णवे जम् वेदगिनस्यान्यश्च निजान्यत्तम् दक्षिणाभ्यर्मराधये लग्निमश्च वृन्देतया स्याग्निम् च निगात् तम् दक्षिणाभेनाथये वृजापतिरग्निमजुलर्तुभिस्तंवत्सरं वसन्ते दैवास्य दक्षिणं पक्षं वर्षाभिःपुच्छगुं शरदोत्तरं पक्षगुं हेमन्त्रेण मध्यं ब्रह्मणावास्योजनक्षत्रेण दक्षिणं पक्षं पदभिः पुच्छं विषोत्परं पक्षमाश्रेवं विद्वानग्नि नृतभि पुरेण मन्तरे क्षंयागं झिपुरेण मसौ कृते यानक्षत्रादिपुरेशतुर्थे दक्षिणापुरे जनः पञ्चमे प्रजापुरे येत यज्ञं दक्षिणामात्मानं प्रजामन्तरिस्मात् पञ्चशिदेकश्चेतव्य ेवस्पृणोदयत्यस्कश्चित्तयत्रे पञ्च छितया भवन्ति पान्तः पुरुषात्मानमेव स्पृणोति पञ्च श्रितया भवन्ति पञ्चम्यः पुरुषैरभ्यो हते सम्भव्यन्ते दशाक्षरो वै पुरुषो यावादेव पुरुषस्तग्रस्पृणोत्यथोदशा न्नम् विराज्याज्येवान्नाद्य प्रतिष्ठति अम्वत्सरो वे षष्ठी पुरेदयो भवन्ति षट्पुरेडाणि द्वादश सम्पद्यन्ते द्वादश मासात्सरः संवत्सर एव प्रयुतिष्ठति ूमृलोहितकर्कम्भुलोहितस्ते प्रजापत्या बभ्रणवभृशुकवभृश्चेतभोद्रा श्वेतश्ेताक्ष श्वेतदेवस्तेवत्या तिष्ठत कृष्णावशावारुण्यस्तिष्ठेतावशा शौर्यो मे रावास्पत्या धूमृस्तोपराः वृष्ट्यस्तिरस्तेन वृष्टिरोर्ध्ववृष्ट्यस्ते मार्धाः फल्गोर्लोहितोर्नेव लक्षिताः सारस्वत्यः पृषते स्थोलपृषते क्षुद्र पृषते तावैस्ति श्रोष्ण्यस्तिस्रोरोहिणे वशा मै प्रियऐन्द्राभारहस्पत्या अर्जुननामा स्तोपराः हुरन्यदस्य देवाहुः समन्तरि देवाहुस्तयेन्द्रवाय वाश्चि निरन्ध्रोऽन्यदश्च निरन्ध्रस्थन्तरि निरन्ध्रस्ते मे रामरुणाः शुद्धवानः सर्वशुद्धवालो मणिवारस्ताश्विनास्तस्य तावशागैश्वदेव्यश्चिस्तशेरे परमेष्ठिरेष्णा श्यामललामास्तु पराः उन्नत भो वामनस्तयेन्द्रावरुणा श्रीगुच्छ्रिकृष्णश्रिभदत्तयेन्द्रावार्यत्या श्रिशिवाच्छित्यौष्टिध्वस्तयेन्द्रा वैष्णवा स्तिस्रिद्ध्वा वशा वैककर्मण्यस्तिस्रोधात्रयषोदरा ऐन्द्राष्णा शेतरलामास्तोपराः नरुणा स्त्रयोवासौम्यास्त्रयश्रुनिव्याग्रय यविष्ठाय त्रयो न गुणास्तिस्रो नो यस्तावसो नास्तिस्रो ऋणानित्यौक्यस्ता रुद्राणां सोमयेन्द्राभ्रणलामास्तो बलाः शुण्ठास्त्रया वेष्णवा अधीलोधकर्माश्रय वैष्णपौरक्रमाय न सुजिरत्रय वृष्णपौरघायाय पञ्जावेस्तिसरादित्यानावत्सास्तिस्राङ्गिरथामैावेष्णवा गौरळलामास्तोपराः इन्द्राय राये त्रयश्री पृष्ठा इन्द्रायाधिराजाय त्रयः श्री गकुल इन्द्रायश्वराय त्रयश्रीभदरस्ति सूर्योक्यसाध्याना सः पृष्ठोक्यो विश्वेदाम् देवानामाज्ञेन्द्राकृष्णननामास्तोपरा अतिष्ठे त्रयो लोहितैता इन्द्रान्ये त्रयः कृष्णैता पुह्वैरे त्रयो ऋणैतास्ति श्रोधे नवो राकाले त्रियो नड्वाश्विनी बाल्या वैष्णवामास्तोपरा श्रोयामलरा इन्द्राने तिश्रोमेष्ट्यादित्या वा पृथिव्या मालङ्गास्तो वराः वारुणास्त्रयः कृष्णलला भावरुणायराज्ञे त्रियोहितललाभा वरुणाय लातलत्रिय वृणलामा शिल्पा श्रिया वैश्वदेवास्त्रय कृष्णय सर्वदेवत्या ऐन्द्रासूराश्रेतललामास्तो वराः राज्ञेनो वाहामनद्वाहामिन्द्राज्ञभ्यामो जोदाभ्यामुष्टारामिन्द्राज्ञिभ्याः वलदाद्भ्या गुंसेरवाहा भवेद्वे धेनो भौमे दिग्भ्यो वणवेद्वे धेनो भौमे वैराजे पुरुषे द्वे धेनो भौमे भागव आरोहणवाहा वनद्वाहौ वारुणे कृष्णे एकादशप्रातर्गव्याः पशवालभ्यन्ते शकलः कल्माणः क्रिकिदेर्विधेकयस्ते त्वाष्टाः सौरेण नव श्वेतावशा नोपन्ध्या भवन्त्या ज्ञेयैश्वस्ते पिशङ्गास्त्रयो वासन्ताः सारङ्गास्त्रयो ग्रयेष्मा पृडन्तस्त्रयो वार्षिका पृष्टयस्त्रयः शारदा पृष्टचक्षास्त्रयो हैमन्दिका अवरिक्तास्त्रयश्रैशिराः संवत्सरा गनिवक्षसः ओ